गर्ग खंडम गर्गसंहिताखण्डं सिक्स् खंडम अध्यायं वन् श्रीगणेशाय नमः कृष्णाय वासुदेवाय देवकीनन्दनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः बहुलाश्व उवाच श्रुदन्तवमुक् ब्रह्मन्मधुराखण्डमद्भुतम् वद मां द्वारकाखण्डम् श्रीकृष्णचरितामृतम् विवाहकदिपुत्राश्च कदिपौत्रारमापतेः सर्वं वदमः बुद्धे द्वारकावासकारणम् श्रीनारद उवाच अस्तिप्राप्ती महिष्यौ द्वे मृदे कंसे महाबले जरासन्दगृहं दुःखाजग्मदुर्मैथिलेश्वर तन्मुखात् कंसमरणं श्रुत्वा क्रुद्धो जरासुदः अयादवीं महीं कर्तुमुद्यो भून् महाबलः अक्षौहिणीभिर्विंशत्या तिसृभिश्चाभि संवृदः रम्यां मधुपरीं राजन्नाययौ बलवान्नृपः भयादुराम् पुरीं वीक्ष्य तत्सेनां सिन्धुनादिनीं सभायां भगवान् साक्षाद् बलदेवमुवाचः सर्वं चास्य बलं राम हन्तव्यं वै संशयः मागधस्तु न हन्तव्यो भूयकर्ता बलोद्यमं जरासन्धनिमित्तेन भारं वै भूवः सर्वं चात्र हरिष्यामि करिष्यामि प्रियं सदा एवं वदति कृष्णे वै वैकुण्ठाच्च रद्धौ शुभौ अभूदां मागधौ राजन् सर्वेषां पश्यतां च तौ समारुह्य रथो सद्यो रामकृष्णौ महाबलौ यादवानां बलै सूक्ष्मैस्त्वरं निजग्मधुःपुरात् यादवानां मागधानां पश्यद्भिर्दिवि जैर्दिवि बभूवत्तुमुलं युद्धमद्भुतं रोमहर्षणम् अक्षौहिणीभिर्दशभीरधारूढो महाबलः श्रीकृष्णस्य पुरं पूर्वं युद्धे मागधेश्वरः पञ्चभिश्चाक्षौहिणीभि धार्तराष्ट्रः सुयोधनः पितृभिश्च महायुद्धे वङ्गनाथो महाबलः युयोधा यादवै सार्धम् जरासन्धः सहायकृत पञ्चभिश्च तदा राजन्विन्ध्यदेशाधिपो एवमन्येऽपि राजानो जरासन्धवशानुगाः प्राणैः साहाय्यं कुर्वन्तो जरासन्धस्य मैथिल बाणान्धकारे सञ्जाते शत्रुसेनासमाकुले टङ्कारं शार्ङ्गधनुषः शार्ङ्गधन्वा चकारः ननादतेन ब्रह्माण्डं सप्तलोकायैर्बिलैः सह विचेलुर्दिग्गजास्तारा राजद्भूखण्डमण्डलं तदैव बधरीभूतं शत्रूणां सैन्यमण्डलम् उत्पदं दोहया युद्धात् गजास्तु विमुखास्ततः दुद्रावतद्बलं सर्वं टङ्काराद्भयविह्वलं प्रदीपमेत्य गव्युधिपुनस्तत्रा जगामः एवं शार्ङ्गसमुच्चार्य तडित्पिङ्गस्फुरत्प्रभं बाणौ कैश्चादयामास जरासंधबलं हरिः चूर्णीभूदारथ राजन् बाणौघैः शार्गधन्वनः चूर्णचक्रानिपेदुःकौ हदसूदाश्च नायकाः द्विधा भूदा गजाबाणैश्चलिदा गजिभिः सह शाश्ववाहास्तथाश्वाश्च बाणैः संच्छिन्नकन्धराः तथा वीरामहायुद्धे भिन्नोरश्चिन्नमस्तकाः विशीर्णकवजाप्ये दुर्बाणौ कैश्चिन्नसंशयाः अधोमुखा ऊर्ध्वमुखाश्चिन्नदेहा नृपात्मजाः रेजूरणाङ्गणे राजन्भाण्डव्योह इवाहदाः क्षणमात्रेण तद्युद्धे शतक्रोश विलम्बिता आपका भून्महा दुर्गा रुधिरस्रावसम्भवा शिशुमाररथा केशशैवालाभ्युज सर्पिणी करमीणा मौलिरत्नहारकुण्डलशर्करा शस्त्रशुक्तिश्चत्र शङ्घा चामरध्वजसैकदा रथाङ्गावर्तसंयुक्ता सेनाद्वयतडावृता शतयोजनविस्तीर्णा भव वैतरणी यथा प्रमधा भैरवाभूदा वेदाला योगिनी गणाः अट्टहासं प्रकुर्वन्तो नृत्यदो रणस्मण्डले पिबन्दो रुधिरं शश्वत्कपालेन नृपेश्वर हरस्य मुण्डमालार्थं जगृहुस्ते शिरांसि च सिंहारूढा भद्रकालीडाकिनीशदसंवृदा पिबन्दिरुधिरं चोष्णं साट्टहासं चकारः विद्याधर्यश्च स्वर्गस्था गन्धर्व्योऽप्सरसस्तथा क्षात्रधर्मस्थितान्वीरान्वक्व्रीरे देवरूपिणः गृहीत्वा तान् कलिरभूतासाम् पत्यर्थमम्बरे ममानुरूपा नेमे च इति तद्गतचेदसां केचिद्वीराधर्मपरारणरङ्गान्नचालिताः ययुर्विष्णुपदं दिव्यम् भित्त्वा मार्तण्डमण्डलं शेषम् बलं समाकृष्य बलदेवो हलेन वै मुशलेनाहनकुद्धस्त्रैलोक्यबलधारकः एवं सैन्ये क्षयं जादे जरा सन्धस्य सर्वतः सुयोधनो विन्ध्यनाथो वङ्गनाथस्तथैव च सर्वे विदुद्रुवुर्युद्धाद्भयभीदायुधस्तदः जरा सन्धो महावीर्यो नागायुधसमो बले रथे नागधवान् राजन् बलदेवस्य सम्मुखे समाकृष्य हलाग्रेण जरासन्धरथं शुभम् चूर्णयामः स सहसा मुशलेन यदुत्तमः जरा सन्धोऽपि विरथोहदाश्वोहदसारथिः जग्राहबलिनन्दोर्भ्यां सन्त्यक्रशस्त्रसंहदिः तयोर्युद्धमभूत्खोरं बाहुभ्यां रणमण्डले पश्यदां दिवदेवानां नराणां भुवि मैथिल उरः सा शिरः सा चैव बाहुभ्यां पादयो पृथक् युयुद्धादे मल्लयुद्धे सिंहाविव महाबलौ तयोश्च युध्यतो सर्वं क्षुण्णं भूमण्ड भूखण्डमण्डलम् तालीव सहसा राजंश्चकम्बे कटिकाद्वयं गृहीत्वा भुजदण्डाभ्यां जरासंधं यदूत्तमाः भो पृष्ठे पातयामास कमण्डलु विवार्भक रामस्तदुपरि स्थित्वा शत्रुं जरासुदम् जग्राहमुसलं घोरं क्रोधपूजितविग्रहः परिपूर्णतमेनाथ श्रीकृष्णेन महात्मना निवारितस्तदैवश्युतं मुमोच यदुत्तमः तपसे कृतसङ्कल्पो व्रीडितोऽपि जरासुतः निवारितो मन्त्रिमुख्यैर्मागधान् मागधो ययौ इद्धं जित्वा जरासन्धं माधवो मधुसूदनः गदं वित्तं सर्वं नीत्वा सुखावहं यादवानग्रदकृत्वा बलदेवसमन्वितः उपगीयमानविजयसूदमागधबन्दिभिः शङ्खदुन्दुभिनादेन ब्रह्मघोषेण भूयसा विवेशमधुरां साक्षात् परिपूर्णतमस्वयं समर्चितो मङ्गलराजपुष्पैः पश्यन्पुरीं मङ्गलकुम्भयुक्तां पीदाम्बरश्यामतनुःशुभाङ्गस्फुरत्किरीडाङ्गदकुण्डलप्रभः शार्ङ्गादि शस्त्रास्त्रधरो हसन्मुखस्तालाङ्गयुक्तो गरुडध्वजः स्वयम् उद्यद्विलोलाश्वरधः सुरार्चितः समेत्य राजानमसौ बलिं ददौ इति श्रीमद्गर्गसंहितायां श्रीद्वारकाकण्डे नारद बहुलाश्वसंवादे जरासन्धपराजयो नाम प्रथमोऽध्यायः ओम् अध्यायम् श्री नारद उवाच पुनस्तत्र जरासन्धस्तावत्यक्षौहिणी बलः युयूधे यदुभिशीघ्रम् पुनः पराजिदः श्रीकृष्णतेजसा सर्वे यादवा वृद्धिमागताः धनुर्गजादिभिः शश्वत् प्राप्तु लुण्ठनसाहसाः प्राप्ते च साहसे राजन्विना युद्धम् पुरैव हि अर्भकाजलहारिण्यश्चकृशत्रु अपहरणम् शत्रुद्रव्यं च संहर्तुं वीक्षन्ध क्रीड वाससः नागरा माधुरा सर्वे परं हर्षमुपागताः एवं सप्तदशकृत्वा क्षीणसैन्यो जरासुधः अष्टा दशमे सङ्ग्राम आगन्तुं च मनोऽकरोद मया प्रणोदितकालयवनो वै महाबलः रुरोधमधुरां क्रुद्धों म्लच्च कोडिसमावृतः म्लच्चानां च बलं वीक्ष्य स्वपुरं भयविह्वलं भयं चो भयतः प्राप्तं रामेणा चिन्तयद्धरिः स्वज्ञादिबन्धुरक्षार्थं समुद्रे भीमनादिनि चकारद्वारकदुर्गमे करात्रेण माधवः यत्राष्टदिक्पालसिद्धिर्विश्वकर्म विनिर्मिता सर्ववैकुण्ठसम्पत्तिर्दृश्यते मोक्षकाङ्क्षिभिः हरिः सर्वजनम् तत्र नीत्वा योगेन पुराद्राममनुज्ञाप्य निर्गदो भून्निरायुधः निरायुधं निरा हरिं ज्ञात्वा मयार्लक्षणैकलः निरायुधः सदं योद्धुम् पदादिस्वयमागतः पराङ्मुखं प्राद्रवन्दं दुरापं योगिनामपि जिघृक्षुस् धावत्सैनिकानाम् प्रपश्यताम् हस्तप्राप्तम् वपुस्तस्मै दर्शयन्निव माधवः दूरङ्गदश्यामलाध्रे प्राविश्यत्कन्दरम् त्वरम् मुचुकुन्दो यत्र चास्ते मान्धादृतनयो महान् असुरभ्यपुरारक्षाम् देवानां यश्चकारः अहर्निशम् न देवसेना परो नृप तमूचु देवता सर्वे प्रसन्ना राजसत्तमं वरं वरयभो राजन्यत्वे मनसि वर्तते न तान् प्राह राजेन्द्रकरोमि शयनम् परम् स या नान्दे मे भवत्वलम् यो मध्ये बोधयेन्मां वै शयनस्याप्यच्चेतनः स मया दृष्टमात्रस्तु भस्मीभवतु तत्क्षणाद तथा स चोक्रसुष्वापराजाकृतयुगे पुरा तत्र प्रविष्टो यवनो मत्वा पीदाम्बरम् च्युतम् तदाडयभनक्रुद्धपादेनाशुमहाकलभ मुचुकुन्दसमुद्धाय शनैरुन्मील्य सोक्षिणी आशा प्रपश्यं स्तम् पार्श्वे स्थितम् कालम् रुष्टस्य दृष्टिपादेन देहे देहजेनाग्निना दग्धो भस्मसादवत्क्षणाद भस्मीभूते च यवने परिपूर्णतमः स्वयं स्वरूपं धीमदे धीमते कोटिसूर्यप्रतिकाशे ज्योतिषां मण्डले प्रभुं स्थितं स्फुरत् किरीडार्ककुण्डलाङ्गदनूपुरम् श्रीवत्साङ्गं च दुर्बाहुं पद्माक्षं वनमालिनं कोडिकन्दर्पलावण्यं कालमेकसमप्रभम् दृष्ट्वा राजा हर्षितोऽपि समुद्धाय कृताञ्जलिः परिपूर्णतमं ज्ञात्वा भक्र्यातम् प्रणनामः मुचुकुन्द उवाच कृष्णाय वासुदेवाय देवगीनन्दनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः नमः पङ्कजनाभाय नमः पङ्कजमालिने नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये नमः कृष्णाय शुद्धाय ब्रह्मणे परमात्मने प्रणदक्लेशनाशाय गोविन्दाय नमो नमः नमोऽस्त्वनन्दाय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः हरे मत्स हरे मत्समःपादगी नास्ति भूमौ तथा त्वत्समो नास्ति पापापहारि यदि च मत्वा जगन्नाथदेव यथेच्छ भवेत्ते तथा मां श्रीनारद उवाच एवं स्तुतो हरिसाक्षात् परमानन्दविग्रहः ज्ञात्वा तम् निर्गुणम् भक्तं प्राह गम्भीरया गिरा श्रीभगवानुवाच धन्यस्त्वम् राजशार्दूलधन्यादेवीमलामदिः नैरपेक्षेण दिव्येन भक्तिभावेन पूरिता अद्यैव गच्छ मद्धाम बदर्याख्यं मदाश्रमम् तत्रैव तु तपस्तप्त्वा भूत्वा ब्राह्मणपुङ्गवः प्रेमलक्षणया भक्त्या मद्धामप्रकृतेः परम् प्राप्स्यसि त्वमहाराजयदो नावर्तदे नारद उवाच इद्धम् स्तुत्वा हरिम् नत्वा परिक्रम्य नदाननः निश्चक्राम गुहा दुर्गाच्छ्रीकृष्णप्रेमविह्वलः द्वापरे क्षुल्लकामर्द्यातालवृक्षशोच्छ्रितम् दृष्ट्वा तम् दुद्रुवुर्मार्गे भयभीदा इतस्ततः मा भाैष्टेत्यभयम् यच्छन् जगामदिशमुत्तराम् यवं दत्वा वरम् तस्मै मुजुगुन्दाय धीमरे भगवान् पुनराव्रज्य मधुरम्लेच्छ वेष्टिता गत्वा हत्वा म्लेच्छ बलम् सर्वम् त धनान्यचिनत् बलाद अधराजा जरासन्धो योद्धुमभ्युदिधः पुनः आहूय मा गधान्विप्रान् प्राखेदं सुदेवा वा सुदेवाख्यम् जित्वा यद्या गदो ह्यहम् सर्वान् सम्पूजयिष्यामि सदा युष्मत्प्रदाश्रये कारागारेषु यावद्वै स्थिता भवद भोद्विजाः द्विजाः वायुष्मान वा युष्मान् हनिष्यामि राजा जरा महाबलः जगामाशु मधुरां त्रयो विंशत्यनीकपः ब्रह्मवाक्यमृदकर्तुं स्वप्रतिज्ञां विहाय च मनुष्यचेष्टामापन्नौ स्वपुराद्भिदभेदवद रामकृष्णौ परौ देवौ पलायमानौ तौ वीक्ष्यमागधप्रहसन् भृशम् अन्वधावद्रधानीकैर्ब्रह्मवाक्यमनुस्मरन् दक्षिणांशं गदाविद्धं प्रवर्षणगिरौ हरी तस्मिन्निलीनो ज्ञात्वा ता ददाहः भस्मी वने जादे भस्मीदेव जाह्यमतड़ा गिरे दशैकोजनो तुंगसुत्त्पत्सु अलक्ष्यम वरीवकायां निपेतु सोपि दग्धौ चौ मधेन्द्रो महाबल मागधान् प्रययौ वीरो वादयन् जय दुन्दुभीन् ब्राह्मणान् पूजयामास भक्त्या परमया नृप यस्य विप्रसहायोस्ति कुतस्तस्य पराजयः इति श्रीमद्गर्गसंहितायां श्रीद्वारकाखण्डे नारदबहुलाश्वसंवादे द्वारकावासकथनम् नाम द्वितीयोऽध्यायः ओम् अध्यायम् त्रि श्रीनारद उवाच इद्धम् मया ते कथितम् द्वारकावासकारणम् विवाहादिकथा सर्वा वदिष्यामि परेशयोः पूर्वम् श्रीबलदेवस्य विवाहम् शृणु मैथिल सर्वपापहरं पुण्यमायुर्वर्धनमुत्तमम् आनर्तो नाम राजा भूत्सूर्यवंशे महामनाः यन्नाम्नानर्तदेशस्यात्समुद्रे भीम नादिनि जैवतो नाम तत्पुत्रश्चक्रवर्ती गुणाकरः राज्यं चकारसपुरीं विनिर्माय कुशस्थलीं तस्य पुत्रशतं चास्यीद्रवदी नाम कन्यका सर्वोत्तमं चिरंजीवं सुन्दरं वरमिच्छति एकदा रथमास्ताय हेमरत्नविभूषितम् आरोप्य स्वान्दुहितरम् रैवधपर्यडन् भुवम् प्राप्तो योगबलेनाभिब्रह्मलोकम् शुभावहम् कन्यावरम् परिप्रष्टुम् ब्रह्माणम् प्रणनामः गायन्त्याम् पूर्वचित्याम् च स्थितो लब्धः क्षणः क्षणम् एकचित्तम् विधिम् रैवद उवाच परः पुराणो जगदम् कुरोभूः पूर्णपरात्मा परमेश्वरोऽसि स्थितः सदा दामनिवारमेष्ट्ये सृजस्य अलम्पासिज हिंससीदम् वेदामुखम् धर्म उरस्तथैव पृष्टम् ह्यधर्मश्च मनुर्मनीष्या अङ्गानि देवा असुराश्च पादाः सर्वा श्रुतिर्देवतनुस्तव स्याद करोषि हस्तमलकम् च विश्वम् नेतुम् प्रभुः सारधिवद्गुणेषु एकस्त्वमेकम् च विधाय जालम् ग्रसिष्यस्य सर्वमिवोर्णनाभिः महेन्द्रदिष्ण्यम् तव वश्यमस्ति किं सार्वभौमं किमु योगसिद्धिः ह्यपारमेष्ट्यं च सदास्ति दोषितस्मै नमो नन्दगुणाय भूम्ने भवान् स्वयं भूर्जगदाम् पिदामहोविधे सुरज्येष्ट इति प्रभावतः अस्यावरं सर्वगुणं चिरायुषं वदाशुमां दिव्यमशेषदर्शनः श्रीनारद उवाच यदच्छ्रुत्वा ततो ब्रह्म स्वयम्भू सर्वदर्शनः रैवतं प्राहराजानं प्रभसन्निव मैथिल श्रीब्रह्मोवाच अत्र क्षणेन हे राजन्भुविपालो महाबलि त्वरं व्यधीतस्त्रिर्णव चतुर्युगविकल्पितः न सन्धिमर्प्यलोके त्वत्पुत्राः पौत्रास्स बान्धवाः तत्पुत्रपौत्रनत्रॄणां गोत्राणि च न शृण्महे तद्गच्छ सर्वमुख्याय नरत्नाय शाश्वते कन्यारत्नमिदं राजन् बलदेवाय देहि भोः परिपूर्णतमौ साक्षाद् गोलोकाधिपदी भुवो भारावतारायावतीर्नौ बलकेशवो असङ्ख्यब्रह्माण्डपदी वसुदेवात्मजौहरी द्वारकायां विराजेदे यदुभिर्भक्तवत्सलौ श्रीनारद उवाच अध श्रुत्वा विधिम् नत्वा रैवो नृपसत्तमः आययौद्वारकम् भूयः समृद्धाधाम् समृद्धिभिः पारिबर्गे रथम् दत्त्वा विश्वकर्म विनिर्मितं सहस्र हयसंयुक्तं दिव्यं योजनविस्तृतम् दिव्याम्बराणि रत्नानि ब्रह्मदत्तानि मैथिल दत्वा ययौ तपस्तप्तुम् बदर्याख्यम् शुभावहम् तदा महोत्सवश्चासीद्यदु गुर्याम् गृहे गृहे सङ्गर्शनो ध भगवान् रेवत्या विरराजः बलदेवविवाहस्य कदाम् यः शृणुयान्नरः सर्वपापविनिर्मुखतपराम् सिद्धिमवाप्नुयात् इति श्रीमद्गर्गसंहितायाम् श्रीद्वारकाखण्डे बलदेवविवाहोत्सवा नाम तृतीयोऽध्यायः ओम् अध्यायम् फोर् श्रीनारद उवाच अथ श्रीकृष्णदेवस्य विवाहम् शृणु सर्वपापहरम् पुण्यम् चतुर्वर्गफलप्रदम् भीष्मको नाम राजा भूद्विदर्भे शुप्रदापवान् कुण्डिनाधिपति श्रीमान् सर्वधर्मविदाम्बरः रुक्मिणी तत्सुदा जादा श्रियो मात्रादिसुन्दरी कोडिचन्द्रप्रदिकाशा गुणभूषणभूषिता श्रुत्वै कदा पुरा सा वै मन्मुखा श्रीहरेर्गुणान् परिपूर्णतमम् तम् वै सा मेने सदृशम्पदीम् तद्रूपम् सगुणम् श्रुत्वा मन्मुखात् प्रीतिवर्धनाद सदृशीम् श्रीहरिस्ताम् वै समुद्वोढुम् मनो कृष्णभावविदा राज्ञा सर्वधर्मविदा भृश्यम् भीष्मकेणैव कृष्णा यदाुम् ताम् निश्चय्यकृदः युवराजस्तदो रुक्मि तम् निवार्य प्रयत्नदः कृष्णशत्रुर्महावीर्यम् शिशुपालममन्यद तदखिन्नमना भैष्मी श्रीकृष्णायमहात्मने दूदं स्वं प्रेषयामास्राह्मणम् मिथिलेश्वर सद्वारकाम् गतो दिव्याम् श्रीकृष्णेन प्रपूजितः भुक्तवांस्तत्र चासीनो विश्रान्तो मन्दिरम् हरे हे पृच्छदे कुशलम् सर्वम् श्रीकृष्णाय महात्मनि ब्राह्मणस्तदनुज्ञातस्तस्मै सर्वमवर्णयद स्वस्ति श्रीकार पञ्चाढ्यो नित्यानन्दमहो दद्धौ श्रीमद्दिव्यघुणैपूर्णे कोडिश्यो नदयो मम शमत्रास्ति च तत्रास्तु ततस्त्वत्पत्रमागदम् नारदोक्तेन वचः स ज्ञातोऽसि प्रकृतेः जानासि सर्वज्ञस्तथा वक्ष्येव वीरभागम् तु माम् विद्धि त्वम् महामदे माम् चैध्यप्रतिगृह्णीयादि यथा सिंहबलिम् मृगः कथम् त्वामुद्वहे दुर्गे स्थितामिति च तच्छृणु पूर्वेद्युक्कुलदेव्यास्तु यत्रास्तिमहीहरे आगमिष्याम्यहम् यत्र तत्र माम् त्वम् गृहाण भोः श्रीनारद उवाच रुक्मिण्यास्तमभिप्रायं श्रुत्वा ब्राह्मणभाषितं रथसंयुज्यतामाशुदारुकं प्राहमानदः पश्चिमायान्तदा रात्रौ वैकुण्डप्रभवं परं किङ्गिणीजालसंयुक्तं हेमरत्नखजित्प्रभं सदश्वसुग्रीव मेघ पुष्पबडाहकैः नियोजितैर्दाजुकेण चञ्चलैश्चारुचामरैः युक्तम् महारथे दिव्यम् सहस्रादित्यवर्चस्सम् आरुह्य सारथे पृष्टे धृत्वा श्री पादपङ्गजम् स्वहस्तेन द्विजम् तस्मिन् समारोप्य विदर्भान विदर्भान् प्रययौ राजन् श्रीकृष्णो भगवान् हरिः कृष्णम् चैकम् गदं हर्तुम् कन्याम् तु नृपमण्डलाद कलिप्रसङ्गितो रामश्रुत्वा सहायकृत। नीत्वा यदु बलं सर्वं समर्थबलवाहनं विपक्षीयान्नृपाञ्जेतुं त्वरं। पश्चाद्ययौ त्वरम् कुण्डिनोपवनं प्रादसद्विजसरथो हरिः संतस्तौ वृक्षे तिणीवृक्षे आस्तीर्याश्वपरिच्छदम् दूरा सन्दृश्यते तस्मात् कुण्डिनन्तु पुरम् परम् दीर्घदुर्गसमायुक्तम् सप्तयो जनवर्तुलम् दुर्लङ्घ्या दुर्गमा यत्रा परिखा जलपूरिता धनुशतम् विस्तृतास्ति चादुर्मास्य नदीवसा पञ्चाशद्धस्तमानेन दुर्गभि दुर्गभिथोध्वग यत्र रम्याणि हर्म्याणि स्फुरधेमशिखानि च हेमकुम्भध्वजस्फूर्ज हेमकुम्भध्वज स्फूर्जयत्वलभानि विरेजिरे पारा वदामयूराश्च यत्र तत्र वदन्ति च शिशुपालाय स्वाम् कन्याम् दा दास्यन् राजादुभिष्मकः चक्रविवाहसम्भारसमयम् रत्नमण्डपे गीतमाल गीतमङ्गलसंयुक्ते नारीभिर्भवनोत्तमे रराजरुक्मिणी राजन् सिद्धिभिर्भूर्यधा भुवि अथर्व विद्विजा भैष्मि सुस्नादाम् रत्नवाससं चक्रुमन्त्रैस्तथा रक्षाम् बद्ध्वा शान्तिम् विधाय च हैमानम् भारलक्षम् च मुक्तानां द्विगुणम् तथा सहस्रभारं वस्त्राणाम् धेनूनामर्बुदानि षट् गदायुधम् रथानां च दशलक्षमनोहरम् दशकोडिहयान्नं च दशकोटिहयानां च गुडादितिलपर्वदान् सहस्रस्वर्णपात्राणां भूषणानां तथायुधम् विप्रेभ्य प्रददौ राजाभीष्मः कोदिमहामनः तथा वै दमकोक्षस्य शिशुपालय वै द्विजाः चक्रुशान्तिम् पूर्वम् रक्षाबन्धनरूपिणीम् ब्राह्मणैर्मङ्गलस्नादम् भेद कञ्चुकशोभितम् मुकुटोपरिविभ्राजत्पुष्पम् मौलिधरम् शुभम् हारतम् कणकेयूरशिखामणि विभूषितम् मङ्गलैर्गीतवादित्रैर्गन्धाक्षत विवर्जितम् आचार लाजैसुवरम् शिशुपालम् विधाय च आरोप्य करिणं प्रोचं दमकोषो विनिर्ययौ जरासन्धेन शाल्वेन दन्तवक्रेण धीमदा विदुरधेन पौण्ड्रेण पार्ष्णिग्राहेण मैथिल विकर्षन् महदीं सेनां दमकोषो महाबलः दुन्दुभिन्नादयन् दीर्घानाय यौ कुण्डिनम् पुरं सम्मुखाद्यदुदेवस्य श्रुत्वोद्वेगं नृपाः परे सहस्रशः समाजग्मुशिशुपाल सहायिनः भीष्मको ह्यग्रदो गत्वा सम्पूज्य सामुद्रसम्भवैः मण्डितेषु च सर्वेषु मुक्ता दामविलम्बिषु सौगन्धिकै पुष्परसै राष्ट्रेषु शिबिरेषु च वराङ्गनानृत्य लस्सन्मृदङ्गेषु ध्वनत्सु च निवेशयामास नृपौ विदर्भाधिपतिर्महान् इति श्री गर्गसंहितायाम् श्रीद्वारका खण्डे कुण्डिनपुरयानम् नाम चतुर्दोऽध्यायः ओम् अध्यायम् 5. फैव् नारद उवाच ध्यायन्ती कृष्णपादाब्जम् भैष्मी कमललोचना मोकं वा मनुदेवाक मेघश्याम मम मम मम मम मम ममचितयद मेघश्याममञ्चितम् मेघश्याममचिन्तयद रुक्मिण्युवाच अहो मान्तरितो विवाहो ममैव नागच्छति कृष्णचन्द्रः न वेत्मिकीं कारणमत्र दादर्नावर्ततेद्यापिज भूमिदेवः यदुत्तमो देववरो ममैष दृष्ट्वा हि किञ्चित् कलुषं विधातः कृतोद्यमो नूनमदीवहस्तग्राहेण चागच्छति किं करोमि हा दुर्भगायाश्च न मे विधाता न सानुकूल किल चन्द्रमौलिः न चैकदन्तो विमुखा जगौरी कावो हि श्रीनारद उवाच एवं विचिन्तयन्ति सा गेहाटभूमिषु परिभ्रमन्ति श्रीकृष्णम् पश्यन्ति गृहस्य पराद तदैव तस्य वामाङ्गमस्फुरत्प्रतिभाषणम् तेन प्रसन्ना श्रीभैष्मी कालज्ञा सर्वमङ्गला कृष्णप्रणोदितो विप्रसद्यश्चा गतवांस्तदा श्रीकृष्णागमनम् तस्यै शनैः सर्वम् शशंसः तदप्रसन्ना श्रीभैष्मीतदङ्घ्रियो प्रणिपत्य प्रनिपत्यसा प्राह त्वद्वंशदो विप्रन्नयास्यामि वजो मम श्रुत्वा गतौ रामकृष्णौ विवाह प्रेक्षणोत्सुकौ भीष्मको निर्गतो नेदुं ब्राह्मणैस्तत्प्रभाविद भृशमङ्गलपात्रेषु गन्धाक्षतयुतेषु च वासोरत्नचयं धृत्वा गीतवादित्रमङ्गलैः कोडिशो मधुपर्काणां कुम्भव्यूहान्विधाय च पूजयित्वाध विधिवद् रामकृष्णौ पूजयित्वा विधिवद् रामकृष्णौ परेश्वरौ अहो चास्मै न देयमिति आनन्द नवने स्ताप्य नत्वा स्वगृहमाययौ श्रुत्वा गतं श्रीवासुदेवनन्दनन्दनं नंद त्रैलोक्या लवण्त्रैलोक्या लावण्यनिधिं परेश्वरम् आगत्य नेत्राञ्जलिभिः पुरौ कसः पपुः परं तन्मुखपङ्कजामृतम् अस्यैव भार्या भवितुं हि रुक्मिणी योग्यास्ति नान्येत्य वदन् पुरौकसः दत्त्वा स्वपुण्यानि विवाहकेतवे श्रीकृष्णलावण्यकला निबन्धकाः कदापि साक्षात् श्वशुरस्य मन्दिरम् सम्प्रागदं चैव महो जनाः द्रक्ष्याम आराकृतकृत्यदान्तदा व्रजे मलोके बहु जीवितेन किम् वदत्सु लोकेषु जीष्म कन्यकाद्रिकन्यकापूजनहेतवे नृप अन्तःपुरात् सर्वसखी समन्वितविनिर्ययौ कृष्णगृहीतमानसा भेरी मृदङ्गैर्बहुदुन्दुभिस्वनैः सुगायकैर्बन्दिजनैश्च मागधैः वराङ्गना नृत्यमनोज्ञभावैर्जयेत्यभून्मङ्गलशब्द उच्चकैः कोडीन्दुबिम्बद्विधिमा दधानां बालार्कताडङ्गरां श्रियं तां सीता तपत्रव्यजनैः स्फुरद्भिस् सुचामरैपार्श्वगणाशिषेवे कोशाद्विनिष्पृश्य सितासिलक्षम् पदादयो वीरजना यतस्तदश तथा स्वगोभीरधिनो गजस्ति दासमुद्यतास्त्रा जगपुर्विदुरदः देवीमठम् प्राप्य सुचत्वरे शान्ता शुजिर्दौध पराङ्घ्रिपङ्कजा गत्वा समीपम् यत वा कृताञ्जलिर्भेजे भवानीम् भवभीदिहारिणीम् भावा दुर्गे स्वसन्तानयुदे शिवे शुभे न मामि तुभ्यम् सततं भवानि ते दे, भूयात्पतिर्मे भगवान् परेश्वर एवं श्युभे मा वद कृष्णनाम चैद्यं समुद्दिश्य वरं गृहाण इद्दं वदं तेषु सखेषु भैष्मि भूयो भवानि भवने जगाद अजानतीयं तव चाम्ब बाला तथा वदं तेषु सखेषु भैष्मि गन्धाक्षतैर्धूपविभूषणाद्यै श्रृङ्माल्यदीपावलिभोगवस्त्रैः हपूपदाम्बूलफलेक्षुभिश्च भेजे भवानीं परयाज जभक्त्या नत्वा दतां वा बहुभूषणाध्यायैः सम्पूज्य सौभाग्यवदीर्णनाम सर्वा स्त्रियस्ताप्रदुर्वराणि सुमङ्गलाशीर् वचनानि तस्यै रूपं सदा देशतरूपया समं शीलं सदा शैलसुदा समं प्रभो शुश्रूषणं भर्तुररुन्धरी समं क्षमाहि भूया जनकात्मजा समं सौभाग्यमेवं तव दक्षिणा समं सुवैभवं भीष्मसुदे शचीसमम् सरस्वती तेज सरस्वती सम भक्तिपदौ सैच सदा हरौ यथा यीगर्ग संहितायां श्री श्री द्वारका द्वारे ऋक्मणी निर्गमनमचमोध्याय ओम.